श्रीमद्भागवत् महापुराणं दशमस्कन्ध अथ पञ्चचत्वारिंशोऽध्यायः श्रीकृष्णबलराम का और और् गुरुकुलप्रवेश श्रीशुकुवाच पितरा उपलब्धार्थौ विदित्वा पुरुषोत्तमः मा भुदिति निजामायां तता न जनमोहिनीम् उवाच पितरा वेद्य प्रश्रयावनत प्रीणन् अम्बतातेति सादरम् नास्मद्दो यवयोस्तात् नित्योत्कण्ठितयोरपि बाल्यपौगण्डके सोरापुत्राभ्याम् अभवन् क्वचे न लब्धो दैवहतयोर्वासो नो भवदन्ति यां बालाः पितृगेहस्ता विन्दते लालिता मुदम् सर्वार्थसम्भवो देहो जनितः पोषितो यतः न तयोर्यातिनिर्वेशं पित्रोर्मरचतायुषा यस्तयोरात्मजकल्प आत्मना च धनेन च वृत्तिं न दद्यात्तं प्रीत्य समां संखादयन्ति मातरम् पितरम् वृद्धम् भार्याम् साध्भिं सुतम् शिशुम् गुरुम् विप्रम् प्रपन्नम् च कल्पो बिभ्रच्छवः सन्मृतः तन्नावकल्पयो कंसा नित्यमुद्विग्नचेतसो मोघमेते व्यतिक्रान्तादिवसा तच्छन्तुर्मर्हतस्तात् मातृणौ परतन्त्रयो अकुर्वतोर्वाम् शुश्रूषाम् क्लुष्टयो द्रूषिदापिषम् शीशु कुवाच इति मायामनुष्यस्य हरिर्विश्वात्मनो गिरा मोहितावङ्कमारोप्य परिस्प्या पतुर्मुदम् सञ्चन्तावस्रुता सुधाराभिः स्नेहपाशेन चावृतौ न किञ्चिन् अचुतो राजन्वाष्पकण्ठौ विमोहितौ एवमाश्वास्य पितरौ भगवान् देवके सुतः मातामहम् तुग्रसेनम् यदुन्नाम करोणृपम् आह चास्मान् महाराज प्रजाश्चाज्ञाप्तुमर्हसि ययाति सापा जुर्भिन्नासि तभ्यम् निपाशने नैभृत्य उपासीने भवतो विविधादयः बलिम् हरन्त्यवनता किमुतान् येन राधिपाः सर्वाण्ज्ञाति सम्बन्धान् दिग्भकम् सभयाकुलान् यदु विष्णयन्धकम् अधुराम् अधुम् मधुदासार्हकुकुरादिकान् सभाजितान् समाश्वास्य विदेशावासकर्षितान् न वासेश्वगेहे सुवित्तै सन्तर्पविश्वक्रीन् कृष्णशङ्कर्षणभुजैर्गुप्ता लब्धमनोरथा गृहे सूरे मिरे सिद्धा कृष्णरामगतज्वरा वीक्षन्तो हरः प्रीयतां मुकुन्दवदनाम्बुजम् नित्यं प्रमुदितं श्रीमन् यदयस्मीति वीक्षणम् तत्र प्रवयसोऽप्यासं युवानोति बलौजस पिबन्तो क्षैर्मुकुन्दस्य मुखाम्बुजसुधाम्बुः अथनन्दं समासाद्य भगवान् देवकीसुतः सङ्कर्षणास्य राजेन्द्र परिस्पृज्येतमोचतुः पितर्यौर्वाभ्याम् स्निग्धाभ्याम् पोषितौ लालितौ भृशम् प्रत्योरभ्यधिका प्रीतिरात्मजे स्वात्मनोऽपि स पिता सा च जननी यौ पुष्णीताम् स पुत्रवन् स सम्बन्धोभिरुत्सृष्टा न कल्पैपोषरक्षणे यातयोयम् व्रजम् तात वयम् च स्नेहदुःखितान् ज्ञातिन्वो द्रष्टुमे श्यामो विधाय सुहृदां शुकम् एवं सान्त्वय्य भगवान्नन्दं स व्रजमच्युतः वासोऽलङ्कारकुप्याद्रीर्ह्यामासपादरम् इत्युक्तस्थौ परिस्पृज्य नन्दप्रणयविरुहलः पूरी अन्यश्रुभिर्नेत्रे स गोपैर्व्रजं ययौ